विंशः सर्गः ताम् तथा दृष्ट्वा विरूपाम् शोणितोऽक्षिता भगिनीम् क्रोधसन्तप्तः खरः पप्रच्छराक्षसः उत्तिष्ठतावदाख्या हि प्रमोहम् जहि सम्भ्रमम् व्यक्तमाख्याहि केन त्वमेवम् रूपा विरूपिता कः तुदत्यभिसमापन्नमङ्गुल्यग्रेण लीलया कालपाशम् समासज्य कण्ठे मोहान्न बुध्यते यस्त्वामद्य समासाद्य पीतवान् विषमुत्तमम् बलविक्रमसम्पन्ना कामगा कामरूपिणी इमामवस्थाम् नीता च महात्मना कोऽयमेवम् महावीर्यस्त्वाम् विरूपाम् चकारः न हि पश्याम्यहम् लोके यः कुर्यान्मम विप्रियम् अमरेषु सहस्राक्षम् महेन्द्रम् पाकशासनम् अद्याहम् मार्गणैः प्राणानादास्ये जीवितान्तकैः सलिले क्षीरमासक्तम् निष्पिबन्निवसारसः निहतस्य मया सङ्ख्ये शरसङ्कृत्तमर्मणः सफेनम् रुधिरम् कस्य मेदिनी पातुमिच्छति कस्य पत्ररथाः कायान् माम् समुत्कृत्य सङ्गताः प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे तन्न देवा न गन्धर्वानपि शाचान राक्षसाः मयापकृष्टम् कृपणम् शक्ता महाहवे उपलभ्यशनैः सञ्ज्ञाम् तम् मेषंसितुमर्हसि येन त्वम् दुर्विनीतेन वने विक्रम्य निर्जिता इति भ्रातुर्वचः श्रुत्वा विशेषतः ततः शूर्पणखावाक्यम् स बाष्पमिदमब्रवीत् तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ पुत्रौ दशरथस्यास्ताम् भ्रातरौ रामलक्ष्मणौ गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ देवौ वादानवावेतौ न तर्कयितुमुत्सहे तरुणीरूपसम्पन्ना सर्वा भरणभूषिता दृष्टा तत्र मया नारीतयोर्मध्ये सुमध्यमा मवस्थाम् नीताहम् यथा नाथा सती तथा तस्याश्चानुजवृत्तायास्तयोश्च हतयोरहम् सफेनम् पातुमिच्छामि रुधिरम् रणमूर्ध्नि एष मे प्रथमः कामः कृतस्तत्र त्वया भवेत् तस्यास्तयोश्च इति तस्याम् ब्रुवाणायाम् चतुर्दशमहाबलान् यादिदेशखरः क्रुद्धो राक्षसानन्तकोपमान मानुषौ शस्त्रसम्पन्नौ चीरकृष्णाजिनाम्बरौ प्रविष्टौ दण्डकारण्यम् घोरम् प्रमदया सह तौ हत्वा ताम् च दुर्वृत्तामुपावर्तितुमर्हथा इयम् च भगिनी मम पास्यति मनोरथोऽयमिष्टोऽ स्या भगिन्या मम राक्षसाः शीघ्रम् सम्पाद्यताम् गत्वा तौ प्रमथ्यस्वतेजसा युष्माभिर्निह तौ दृष्ट्वा तावुभो भ्रातरौरणे इयम् प्रहृष्टा मुदिता रुधिरम् युधिपास्यति इति प्रतिसमादिष्टा राक्षसास्ते चतुर्दशा तत्र जग्मुस्तया सार्धम् घना इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकोनविंशः